प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तधान्ये ततो ब्रुवन् लोकगुरुम् समेत भयात्तीव्रान्मानुषाणाञ्च वृद्ध्या तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणम् मर्त्या अमर्थ्याः संवृत्ता न विशेषोऽस्ति कश्चन अविशेषादुद्विजन्तो विशेषार्थमिहागताः श्रीभगवानुवाच वैवस्वतो व्यापृतः सत्र हेतोस्तेन त्विमेन म्रियन्ते मनुष्याः तस्मिन्नेकाग्रे कृतसर्वकार्ये वैवस्वतस्तस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रयुक्ता सैषामन्तो भविता ह्यन्तकाले न भविता नरेषु व्यास उवाच ततस्तुते पूर्वजदेववाक्यं पूर्वजदेववाक्यम् श्रुत्वा जग्मुर्यत्र देवा यजन्ते समासीनास्ते समेता महाबला भागीरथ्याम् ददृशुः पुण्डरीकम् दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम सोपस्यद्योषा मथ यत्र देवी गङ्गा सततम् प्रसूता सा योषा रुदती जलार्थिनी गङ्गाम् देवीम् व्यवगाह्यव्यतिष्ठत् तस्याश्रुबिन्दुः पतितो जले यस्तत्पद्ममासीदथ तत्र काञ्चनम् तदद्भुतम् प्रेक्ष्य वज्री तदानीमपृच्छत्ताम् योषितमन्ति का द्वयि का भद्रे रोदिषि कस्य हेतोर्वाक्यम् कामयेहं कामयेऽहम् ब्रवीहि स्त्रियुवाच त्वम् मामिह यास्मि चक्र यदर्थम् चाहम् रोदिमि मन्दभाग्य आगच्छ राजन्पुरतो गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् व्यास उवाच ताम् गच्छन्तीमन्वगच्छत्तदानीम् सोपस्यतारात्तरुणम् दर्शनीयम् सिद्धासनस्थम् युवतीसहायम् क्रीडन्तमैषद्गिरिराजमूर्ध्नि तमब्रवीद्देवराजो ममेदम् त्वम् विद्धि विद्वन् भुवनम् वसे स्थितम् ईशोऽहमस्मीति समन्युरब्रवीत् दृष्ट्वा तमक्षैः सुभृशम् प्रमत्तम् क्रुद्धम् च शक्रम् प्रसमीक्ष्य देवो जहासशक्रम् च शनैरुदैक्षत संस्तम्भितोऽभूदध देवराजस्तेनेक्षितस्थाणुरिवावतस्ते यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीम् मृदतीम् तामुवाच आनीयतामेष यतो हमारान्नैनम् दर्पः पुनरप्याविसेत ततः शक्रः स्पृष्टमात्रस्तया तु स्त्रस्तैरङ्गैः पतितो भूद्धरण्याम् तमब्रवीद्भगवानुग्रतेजामैवम् पुनः शक्रकृथाः कथञ्चित् निवर्तयैनम् च महाद्रिराजम् बलम् च वीर्यम् च छिद्रस्य चैवाविसमध्यमस्य यत्रासते सूर्यभासः सदद्विवृत्य विवरम् महागिरे स्तुल्यद्युतींश्चतुरोऽन्यान् ददर्श सतानभिप्रेक्ष्य बभूव कच्चिन्नाहम् भविता वै यथेमे ततो देवो गिरिसो वज्रपाणिम् विवृत्य नेत्रे कुपितोऽभ्युवाच दरीमेताम् प्रविसत्वम् शतक्रतो यन्माम् बाल्यादवमं स्थाः पुरस्तात् उक्तस्त्वेवं विभुना देवराजः प्रावेपदार्तो भृशमेवाभिषङ्गात् स्रस्तैरङ्गैरनिलेनेव नुन्नम् अश्वत्थपत्रम् गिरिराजमूर्ध्नि स उवाच देवम् बहुरूपमुग्रसृष्टा शेषस्य भुवनस्य त्वम् भवाद्यः तमब्रवीदुग्रवर्चाः प्रहस्य नैवं शीलाः शेषमिह आप्नुवन्ति एतेप्येवम् भवितारः पुरस्तात् तस्मादेतां दरीमाविश्येष्व तत्र ह्येवम् योनिम् सर्वे मानुषीमाविसध्वम् तत्र यूयम् कर्म कृत्वा विषह्यम् आगन्तारः पुनरेवेन्द्रलोकम् स्वकर्मणा पूर्वजितम् हार्हम् सर्वम् मया भाषितमेतदेवम् कर्तव्यमन्यत् गमिष्यामो मानुषम् देवलोकात् दुराधरो विहितो यत्र मोक्षः देवा आगन्तारः पुनरेवेन्द्रलोकम् व्यास उवाच एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठम् पुनरेवेदमाह वीर्येणाहम् पुरुषम् कार्यहेतोर्द्यामेषाम् पञ्चमम् मत्प्रसूतम् विश्वभूतधामा च शिबिरिन्द्रः प्रतापवान् शान्तिश्चतुर्थस्तेषाम् वै तेजस्वी पञ्चमः तेषाम् कामम् भगवानुग्रधन्वा प्रादादिषं सन्नसर्गाथोक्त्यं योषित लोककांतां व्यदधाषु तैरव साधं ततः स देव जगाम नारायणम्रमेय अनतमजं पुराणम सनातनम विस्वनम स चा तद्यवधत्सम ततसर्वे संबूवूर्धरण्यां सचा केशौहर शुक्लमेकमपरं चापि कृष्णम् तौ चापि केशौ देवकीं रोहिणीं च तयोरेको बलदेवो बभूव योऽसौ वर्णतः कृष्ण उक्तः इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यां सः पाण्डवः सव्यसाची एवमेते पाण्डवाः सम्बभूवुर्येते राजन्पूर्वमिन्द्रा बभूवुः लक्ष्मीश्चैषाम् पूर्वमेवोपदिष्टा भार्यायैषा द्रौपदी दिव्यरूपा कथम् हि स्त्रीकर्मणा ते महीतलात् समुत्तिष्ठेदन्यतो देवयोगात् यस्यारूपम् सोमसूर्यप्रकाशम् गन्धश्चास्याः क्रोशमात्रात्प्रवाति इदम् चान्यत्प्रीतिपूर्वम् नरेन्द्र ददानि ते वरमत्यद्भुतम् च दिव्यम् चक्षुः पश्यकुन्तीसुतांस्त्वम् पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् वयसम्पायन उवाच ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः चक्षुर्दिव्यम् प्रददौ सर्वान् राजा यथावत, राजप्यत्वेहैथावत तथो दिव्यान किट मलि चक्र प्रख्यान पापकाच्यवर्ण बद्धापीडाशारुप यूनो यूढ़ोरस्कांस्ताड़म दर्श दिव्यस्त्रैरजो सुगंध माल्येच्चाग्र्य सोभमानतीव साक्ष्या्या्या्या्या्या्या्या्या्या वसूंशा रुद्रदिन्वुोपन्ना तान् पूर्वेन्द्रानभिवीक्ष्याभिरूपान् चक्रात्मजम् चेन्द्ररूपम् निशम्य प्रीतो राजा दृपदो विस्मितश्च दिव्याम् मायाम् तामवेक्ष्या प्रमेयाम् ताम् चैवाग्र्याम् स्त्रियमतिरूपयुक्ताम् दिव्याम् साक्षात् सोमवह्निप्रकाशाम् योग्याम् तेषाम् रूपतेजो यशोभिः मत्वा हृष्टवान् पार्थिवेन्द्रः सदद्दृष्ट्वा महदाश्चर्यरूपम् जग्राहपादौ सत्यवत्याः सुतस्य नैतच्चित्रम् परमर्शे त्वयीति प्रसन्नचेताः स उवाचैनम् व्यास उवाच आसीत्तपोवने काचिदृशेः कन्या महात्मनः नाध्यगच्छत्पतिम् सा तु कन्यारूपवती सती तोषयामास तपसा सा किलोऽग्रेण शङ्करम् तामुवाचे प्रीतो वृणुकाममिति स्वयम् सैव मुक्ताब्रवीत्कन्या देवम् वरदमीश्वरम् पतिम् सर्वगुणोपेतमिच्छामीति पुनः पुनः ददौ तस्यै स देवे सस्तम् वरम् प्रीतमानसः पञ्चते पतयो भद्रे भविष्यन्तीति शङ्करः सा प्रसादयति देवमिदम् भूयोऽभ्यभाषत एकम् पतिम्पेतम् त्वत्तोऽर्हामीति ताम् देवदेवः प्रीतात्मा पुनः प्राहशुभं पंचस्वोहम पति दे वै पुनः तद्रे वचस्त भद्रमस्तुते देहमतायास्वेतविष्यतिपदेशे सुता वै देविणी पंचा वित्नी पार्ष्यनितागश्री पांडवा समुत्न्ना महामखे सेंहत घोरं दुहितृत्व तवागता सैषा देवी रुचिरा दुष्टा देव पंचाना नेहकर्मण सृष्टा स्वयं देवत्नी स्वयं भुवा श्रुवा राजुपदेष्टं कुरी महाभारे आदिपर्ण वैवाहिकपर्व पंचेद्रोपाख्या षणवत्क शमोध्याय